नम्रस्वभावः एव श्रेष्ठः कस्याश्चन नद्याः तीरे कश्चन शाल्मलिवृक्षः आसीत् नद्याः जलेन सिक्तः सः वृक्षः महाबलवान् आसीत् तस्य प्रकाण्डः बहु स्थूलः आसीत् तस्य वृक्षस्य निकटे अन्ये केचन वृक्षाः अभवन् तेषां प्रकाण्डाः नम्राः आसन् तेषाम् अर्धशरीरं जले एव निमग्नम् आसीत् ते बहु विकसिताः आसन् एकदा तीव्रः प्रचण्डः च वायुः अवहत् तेन बलवान् अपि शाल्मलिवृक्षः भूमौ अपतत् परम् अन्येषां वृक्षाणां कापि हानि न अभवत् एतद्दृष्ट्वा शाल्मलिवृक्षः विस्मितः अभवत् शाल्मलिवृक्षः अन्यान् वृक्षान् अपृच्छत् तीव्रवायुप्रभावात् अपि अपि हानि न किमर्थम् इति एतत् श्रुत्वा ते वृक्षाः अवदन् भवान् अहङ्कारी अस्ति भवान् श्वशरीरं दृष्ट्वा उच्चैः भूत्वा स्थितवान् वायोः प्रभुता भवता न स्वीकृता अतः क्रुद्धः वायुः भवन्तम् अपातयत् अहङ्कारिणः पतनं सहजं परं वयं सर्वे नम्राः भूत्वा वायोः प्रभुतं स्वीकृतवन्तः अतः सुरक्षिताः स्मः इति एकुतवत शालमल वृक्ष रुक्षा, वृक्ष से ग्रीवा अवनता अभवत्